महारथा वीराण् कथनम्च्यमे शत्रुण् चतुर्थ नयी दिनार्धेन महाबाहुः प्रेतराजपुरम् प्रति ततो महारथैर्वीरैः समेत्य बहुशोरणे दिनक्षये महाबाहुर्मया भूय समेष्यति एकम् वंशकरं पुत्रं वीरं वै जनयिष्यति प्रणष्टम् भारतम् वंशम् स भूयो धारयिष्यति एतत्सोमवचः श्रुत्वा तथा स्वितिदिवौकसः प्रत्यूचुःसहिताः सर्वे ताराधिपमपूजयन् एवम् ते कथितम् राजंस्तवस्जन्मपितुः पितुः पितु। अग्नेर्भागन्तु विद्धि त्वम् धृष्टद्युम्नं महारथं शिखण्डिनमथो राजं स्त्रीपूर्वं विद्धि राक्षसम् द्रौपदेयाश्च ये पञ्च भरतर्षभ। विश्वान् देवगणान्विद्धि सञ्जातान्भरतर्षभ प्रतिविन्ध्यः तस्य कन्यापृथा सदृशी भुवि पितुः स्वश्रीयपुत्राय सोनपत्याय वीर्यवान् अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वैतदा अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया अददात्कुन्तिभोजाय सतां दुहितरं तदा सा नियुक्तापितुर्गेः ब्राह्मणाथितिपूजने उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतं निगूढनिश्चयं धर्मेयं तं दुर्वाससंविदुः तमुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् तुष्टोऽभिचारसंयुक्तमा च चक्षेयथाविधि उवाच चैनाम् भगवान् प्रीतोस्मि सुभगेतव। तव देवं त्वमेतेन देवम् त्वमेतेन मन्त्रेणावाहयिष्यसि तस्य तस्य प्रसादा देवी देवि पुत्राञ्जनिष्यसि एवमुक्ता साबाला तदा कौतूहलान्विता कन्या सती देवमर्कमाजुहावयशस्विनी प्रकाशकर्ता भगवाँस्तस्याम् गर्भम् दधौ तदा अजीजनत्सुतं चास्याम् सर्वशस्त्रभृतां वरम् सकुण्डलम् स दिवाकरसमं दीप्या चारु सर्वाङ्गभूषितम् वै बन्धुपक्षभयात्तदा तदा कुन्ती तम् कुमारं जले गर्भम् राधा महायशाः राधायाः कल्पयामास पुत्रम्